श्रयन्तामर राज्यपति राष्ट्रपतिना रामनाथकोविन्देन भणितं यत् राज्यपाला विकास योजनाभि सम्चित लाभात् वंचित जनानां कल्याणाय महत्वपूर्ण भूमिका निर्वाहयित् सक्षमाः राष्ट्रपतिभवने तेन राज्यपाल उपराज्यपालानां द्वि दिवसीयं सम्मेलनम् उद्घाटितम् जम्मूकश्मीरे शोपियां जनपदे हस्तगोलकाक्रमणे चत्वार रक्षिकार्मिकान् समेत्य द्वादश नागरिका हा आहता केन्द्रीय माध्यमिक शिक्षा मण्डलेन राष्ट्रिय पात्रता परीक्षा मीट इत्यस्य परिणामा घोषिता अपि च ग्वाटमालायां संजात ज्वलमुखी उत्क्षण पञ्चविंशति जना मृता शताधिकाश्चाहता राष्ट्रपति राष्ट्रपतिना रामनाथकोविन्द्रिक्तं यत् राज्यपाला विकास योजनाभ्य वंचित जनानां कल्याणाय महत्वपूर्ण भूमिका निर्वोढ़ शक्यन्त श्रीकोविन्द अद्य राष्ट्रपति भवन राज्यपाल उपराज्यपालानाम् ऊनपंचाशत् सम्म सम्बोधयति तनोदीरितं यत् दर्श अनुसूचित जनजात दश कोट्यधिक जना निवसन्ति तणितं यत् भारत दर्ष ऊन सप्तति प्रतिशत विश्वविद्यालया राज्य प्रशासनान्तर्गतं समायान्ति तत्र राज्यपाला एव कुलाधिपतय वर्तन्त अत छात्राणां प्रवर्ष अध्यापकानां नियुक्तिश्च पारदर्शीरीत्या भवितव्या तेन भणितं यत् केन्द्रं वर्षेडस्मिन् अक्तूबर द्वितीया त चत्र्विंशति मास पर्यन्तं महात्मगान्धिन पंचाशदृत्तर शत तमीं जयन्तीं परिपालयिष्यति सम्मेलने उपराष्ट्रपति एम वेंकैया नायड् प्रधानमन्त्री नरेन्द्रमोदी अपि उपस्थितौ आस्ताम प्रधानमन्त्रिणा राज्यपालानां प्रारम्भिकं सत्रं सम्बोधितमं तेन भणितं यत् एकविंशे दिवसे अन्ताराष्ट्रिय योग दिवसे युवजनष् नव जीवन स्फूर्त्या जागरणं भविष्यताम् जम्मूकश्मीर अद्य अज्ञातातंकिभि रक्षिदल हस्तगोलकै आक्रमणं विहितम् अस्मिन् आक्रमणे चत्वार रक्षिकार्मिका द्वादश अन्य नागरिका च आहता दक्षिण कश्मीरे शोपियां जनपदे बटपोरा चत्वरे संजाताम, घटनाम इमाम घटनामिमालक्ष्य प्रवक्त्रा प्रोक्तं यत् आहतेष् महिला बालिका अपि सम्मिलिते स्तरी केन्द्रीय माध्यमिक शिक्षामण्डलेन अद्य बीडीएस पाठ्यक्रमेष् प्रवेशाय राष्ट्रिय पात्रता प्रवेश परीक्षा नीट इत्यस्य परिणामा घोषिता मे मासे संजातायाम् अस्यां परीक्षायां त्रयोदश लक्षाधिका छात्रा भागमावहता इत प्राक् उच्चतम न्यायालयेन नीट् परिणाम घोषणायाम् अवरोधनम् अपि निराकृतम् महाराष्ट्रमहाराष्ट्रे नासिक मण्डले ह्य संजात दृष्टे विद्युतावपातेन पञ्च जना मृता रक्षादलेन सूचितं यत् धुले जनपदस्य वारखेड़ी ग्रामे वृक्षावपातेन महिला तस्या त्रय बालका अपि मृता नासिक जनपदे अम्बेवाडी क्षेत्रे विद्युतावपातनात् महिला बाल विकास मन्त्रिणा मेनका गान्धिना एयर इण्डिया यौनोत्पीडन प्रकरणे त्वरित कार्याचरणाय कथितमस्ति पीडिता महिला कार्यस्थले महिलोत्पीडनाधिनियमान्तर्गतं पञ्जीकृता परिदेवना याचिका सन्दर्भे मेनका गान्धिनम् अमिलत गान्धिवर्यया परिदेवना समिति प्रमुख प्रकरणस्य अन्वीक्षणं मासाभ्यन्तरे प्रपूरयित्म् आदिष्ट भारतीय जनता पार्टी अध्यक्ष अमित शाह समर्थन सम्पर्क अभियानान्तर्गतम् अद्य योगग्रु रामदेवम् अमिलत् श्रीशाहेन भणितं यत् भारतीय जनता पार्टी दल समर्थक जनेभ्य सर्वदा आशीर्वादा समीहते तो निदीरितं यत् दल पदाधिकारिण लक्षोत्तर जनैस्सह अपि मेलिष्यन्ति मध्य अमेरिकायां स्थिते ग्वाटेमाला देशे फ्यूएजो ज्वालमुखी उत्क्षेपेण एल रोडियो ग्रामे पञ्चविंशति जना मृता च आहता तत्रत्य राष्ट्रिय आपद प्रबन्धन अभिकरणेनोक्तं यत् एतस्मात् आकाश धूमिल सञ्जाता भवनानि अपि क्षतिग्रस्तानि जातानि इति